भद्रो वाचा, नारी परम धर्म सर्वा भर्तृ विना पति विना जीवतीया न सा जीवति दुःखिता पतिं विनामृतं श्रेयो नार्या क्षत्रियपुङ्गवा त्वद्गतिं गन्तुमिच्छामि प्रसीदस्वनयस्व मां त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे प्रसादं कुरु राजन् इतस्तूर्णं नयस्व मां पृष्ठतोऽनुगमिष्यामि च त्वामहं नरशार्दूल छायेवानुगता राजन् सततं वशवर्तिनी भविष्यामि नरव्याघ्रा नित्यम् आधयोभिभविष्यन्ति त्वामृते पुष्करेक्षण अभाग्यया तेन मे विप्रयोगोऽयम् उपपन्नस्त्वया सह विप्रयुक्ता तु यापत्या मुहूर्तमपि जीवति दुःखं जीवति सा नरकस्थेव पार्थिवा संयुक्ता पूर्वदेहे कृतामया तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितं दुःखं मामनुसम्प्राप्तं राजं त्वद्विप्रयोगजम् अद्य प्रभृत्यहं राजन् कुशसंस्तरशायिनी भविष्याम्य सुखाविष्ट त्वद्दर्शनपरायण